ऐतरेयोपनिषत् शान्तिपाठम् ॐ वाङ्मे मनसि प्रदिष्टिता मनो मे वाचिप्रदिष्ठितमाविराविर्म येधि वेदस्यम आणीस्तश्रुतं मे मा रनेना धीरेनाहोरात्रान् सन्दधाम्यरुदं वदिष्यामि सत्यं वदिष्यामि तन्मामवदु तद्वक्तारमवत्यवधु मामवदु वक्तारमवधु वक्दारम् ॐ शान्ति शान्ति शान्तिः अध प्रथम प्रथम खंडह ओं आमाइदवाग्र आसीन्य किंच नमिषद स ईक्षदोकान्ुसोका सृच दो मरीचिर्मरमापो दौंभ परेण दिवन्द्यौ प्रदिष्ठान्तरिक्षं मरीचयः पृथिवी अधस्तात्ता आपः स ईक्षते मे नु लोकालोकपालान्नुसृजा इति सोऽभ्य पुरुषं समुद्धृत्या मूर्चयद। तम्यतपस्त मुखर मुखाध्वा मुखा गाचोग्निनासी केरभिदा नासीकाभ्यां प्राण प्राण्वायुरक्षिणी निरभेदिभ्या चक्षुचुष आधित्य कर्णौ निरभिद्येदां कर्णाभ्यां श्रोत्रम् श्रोत्राद्दिशस्त्वं निरभिद्यधत्वजोलोमानिलोमभ्य ओषधि वनस्पदयो हृदयन्निरभिद्यद हृदयान्मनो मनसश्चन्द्रमानाभिर्निरभिद्यधनाभ्या अपानोपानान्मृत्युशिष्णन्निरभिद्यद शिष्णाद्रेदो रेतस आपः अध प्रथमोऽध्याये द्वितीयः खण्डः ता येदा देवता सृष्टा अस्मिन्महत्यर्नवे प्राप तन्दमशनायापिपासाभ्यामन्वववार्जत्ता यमब्रुवन्नाय तनन्नः प्रजानी हि यस्मिन् प्रतिष्ठिता अन्नमदामेति ताभ्यो गामानयत्त अब्रुवन्न वै नोयमलमिति ताभ्यो श्वमानयत्त अब्रुवन्न वै नोयमलमिति ताभ्यः पुरुषमानयत्त अब्रुवन् सुकृतं वदेदि पुरुषो वावसुकृतं ता अब्रवीदात प्रवशते अग्नेवागू मुख प्रशदु प्राणो भूवा नशीक प्रशदादितक्षुर्भू प्राश दिश्रोत्र भू कर्णौ प्राविशन्नोषधि वनस्पदयो लोमानि भूत्वा त्वचं प्राविशांश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापोरेदो भूत्वा प्राविशन् तमशनायापिपाशे अभ्रुता माभ्यामभिप्रजानीहीति ते अब्रवीदेतास्वेवा देवतास्वा भजाम्येतासु भागिन्यौ करोमीति तस्माद्यस्यैकस्यैज देवतायै हविर्गृह्यदे भवतः भागिनियामशना पिपाशेब प्रथम तृधी खंडस् ईक्ष लोकाशक्य सृजोभ्यतपत्ताभ्योत्ताभ्यो मूर्तिरजाद या वैसा मूर्तिरजायतान्नं वै तद् तदेर्नसृष्टं पराङ्क्यजिखां सत्तद्वाजाजिघृक्ष शक्नोद्वा जाग्रहीतुं स यद्धैनद्वा जाग्रहयिष्यदभिव्याहृत्य हैवान्नमत्रप्स्यद तत्प्राणेनाजिघृक्षत्तन्नाशक्नोत्प्राणेनग्रहीतुं स यद्धैनत् प्राणेनाग्रहैष्यदभिप्राण्यहैवान्नमत्रप्स्यद तच्चक्षुषा जिघृक्षत्तन्नाशक्नोश्चक्षुषा ग्रहेतुं स यद्धैनश्चक्षुषाग्रहैष्यदृष्ट्वाप्स्यद तच्छ्रोत्रेणा जिघृक्षस्तन्नशक्नोच्छ्रोत्रेणग्रहीतुं स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यद तत्त्वच जिघृक्षतन्न शक्नो त्वजाग्रहेतुं स यद्धै न तन्मनसा जिघृक्षत्तन्नाशक्नोन्मनसाग्रहेतुंस यद्धैनन्मनसाग्रहैष्यध्यात्वा हैवान्नमत्रप्स्यद तच्चित्स्नेनाजिघृक्षत्तन्नाशक्नो चित्स्नेनग्रहेतुं स यद्धै नस् चित्स्नेनाग्रहैष्यद्विसृज हैवान्नमत्रप्स्यदपानेन जिघृक्षत्तदा वयत्सैषोऽस्य ग्रहो यद्वायुरन्नायुर्वा एष यद्वायुः स ईक्षद कथन्विदम् अधुते स्यादिति स ईक्षद इति स यदि वाचाभिव्या हृदये चक्षुषा दृष्टै यदि श्रोत्रेण श्रुतै यदि मनसाध्यादै यद्यपानेनाभ्यपानिदै यदिशिष्णेन विसृष्टमधकोऽहमिति स एदमेव सीमानं विदार्यैतया द्वारा प्रापद्यद सैषा विधृतिर्नामध्वास्तदे तन्नान्दनन्दस्यत्रय आवसद्धात्र यः स्वप्ना अयमावसधो यमावसधो यमावसध इति स जादो भूतान्यभिवैख्यत्किमिहान्यं वावदिशदिति स पुरुषं ब्रह्म तस्मादिदन्द्रो नामे दन्द्रोह वै नामतमिदन्द्रं सन्तमिन्द्र इत्याचक्षदे परोक्षेणपरोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः अधद्वितीयोऽध्यायः प्रथमः खण्डः पुरुषे ह वा अयमादितो गर्भो भवधि यदे दध्रेदस्तदेधर्वेभ्योऽङ्गेभ्यस्तेजशम्भूदमात्मन्येवात्मानं बिभर्ति तद्यथा स्त्रियां सिञ्चत्यथैनज्जनयदि प्रथमं जन्म तत् स्त्रिया आत्मभूयं गच्छदि स्वमङ्गं तदा तस्मादेनान्न हि नस्ति सास्यैदमात्मानमत्र गदं भावयति सा भावयित्री भावयितव्या भवदि तं स्त्रीगर्भं बिभर्ति सोऽग्र एव कुमारञ्जन्म नोग्रेधि भावयति स यत्कुमारञ्जन्म भावयत्यात्मनमेव तद्भावयत्येषाल्लोकानां सन्तत्या एवं सन्तता हि मे लोकास्तदस्य द्वितीयञ्जन्म सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः आत्मा कृतकृत्यो वयोगधप्रैदिश इदप्रयन्नेव पुनर्जायते तदस्य तृतीयञ्जन्म तदुक्तमृषिणा गर्भेणु सन्नन्वेषामवेदमहन् देवानाञ्जनीमानि विश्वा शतं पुर आयसि जवसा निरदीयमिदिगर्भ गर्भये वैतश्चयानो वामदेव एवमुवाच स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुश्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वा मृतः समभवत् समभवत् अध तृतीयोऽध्यायः प्रथमः ॐ कोऽयमात्मे दिवयमुपास्मके कतरः स आत्मा येन वा पश्यदि येन वा शृणोति वा गन्धानाजिघ्रदि वा वाचं व्याकरोधि येन वा स्वधु च स्वधु च विजानादि यतेर्दधृदयं मनश्चैदत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टेर्घृधिर्मदिर्मनीषा ज्योतिस्मृधिसङ्कल्पक्रदुरसुकामो वश इति सर्वाण्ये वैदानि प्रज्ञानस्य नामधेयानि भवन्ति येष ब्रह्मैष इन्द्र एष प्रजापतिरेदे सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपोज्योदींषित्येदानी मानि च क्षुद्रमिश्राणीव बीजानिदराणि प्राणिजङ्कमं च पदत्रि च यच्चस्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञानेप्रतिष्ठितं प्रज्ञानेत्रो लोकप्रज्ञाप्रतिष्ठा प्रज्ञानं ब्रह्म सयेते न प्रत्नेनात्मनास्माल्लोकादुत्क्रम्यामुस्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वा मृतः समभवत्सम भवदित्योम् ओ वाङ्मे मनसि प्रतिष्ठिता मनो ये हि वेदस्यम आणीस्तश्रुतं मे मा प्रहासीरनेनाधीतेनाहो रात्रान् सन्धदाम्यहृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवदु तद्वक्दारमवत्त्ववदु मामवदु वक्दारमवदु वक्तारम् ॐ शान्तिः शान्तिः शान्तिः